ब्रह्माण्डपुराणं मध्यभागम् अध्यायं सेवन् काश्यपेयवर्णनं सूत उवाच गन्धर्वाप्सरसःपुत्रा मौनेयास्तान्निबोधत भीमसेनेग्रसेनौ च सुपर्णो वरुणस्तथा धृतराष्ट्रश्च गोमांश्च सूर्यवर्चास्तथैव च पात्रवानर्कपर्णश्च प्रयुतश्च तथैव हि भीमश्चित्ररथश्चैव विख्यातः जिद्वशी त्रयोदशशालिशिराः पर्जन्यश्च चतुर्दशः कलिःपञ्चदशस्तेषां नारदश्चैव षोडशः इत्येदे देवगन्धर्वा मौनेयाः परिकीर्तिताः चतुर्विंशाश्चावरजास्तेषा मप्सरः सशुभाः अरुणा चानपाया चा, मिश्रकेशी तथा चासि पर्णिनी चाप्य मरीचिशुचि का तिलोत्तमा किलोत्तमा अद्रिका लेम दिव्यारंभा मनोभवा अशिता चुबूश सुप्रिियाज तथा पुंडरीका गा चीसुरसा तथा तथैवास्या सुबहश्च विख्यात जहाँहु तुमुे चर स्मृता गंधर्वसमा गर्वा सरस्व्य मौनेकीर्ति हंस सरस्वती चूता चमला भया सुखी हमसपादी चौकिक्योपरसस्मृता हंसोज्योदिष्टमो हम मध्य आचारस्ुण वरुधोध वरण्यश तदो वसुरुचिस्मृतः। अष्टमसुचिस्दो विश्वा वसुस्मृत सुषुवेश महाभागाष्टा देवर्षि पूजिता अरूं सुभगां दित्रेधा मित्रेध्य मनुवंदी सुशीच तुंबरोस्त सुुभे पञ्चचूडास्त्विमा विद्या देवमप्सरसो मेनका सहजन्याच च पर्णिनी पुञ्जिकस्थला कृतस्थला धृताची विश्वाची पूर्वचित्यपि प्रम्लोचेत्यभिविख्यादानुम्लो चैव अनादिनिधनस्याधजज्ञे नारायणस्य या कुलोचितानवद्याङ्गी उर्वश्चेकादशी स्मृता मेनस्य मेनका कन्याजज्ञे सर्वाङ्गसुन्दरी सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च तास्मृताः गणास्त्वप्सरसाङ्ख्यादाः पुण्यास्ते वै चतुर्दश आहृत्य शोभवत्यश्च वेगवत्यस्तथैव च ऊर्जाश्चैव युवत्यश्च स्रुजस्तु गुरवस्तथाश्च वर्षयच्चाश मुद्च मृगवोरुचो भयन्ह दुर्दश ब्रमणो मनसाशो मुत्त्सुता वेगवत ऊर्जा संभवा युवत्यश्च तथा सूर्यरश्मिजादा सुशोभनाः गभस्तिभिश्च सोमस्य जज्ञिरे कुरवशुभः यज्ञोत्पन्नासृजो नाम कुशवत्याञ्च बर्हयः वारिजाह्यमृतोत्पन्ना अमृता नामदस्मृताः वायुत्पन्नामुदा नाम वायुत्पन्ना भूमिजामृगवस्तथा विद्युतोऽत्र रुजो नाम मृत्योः कन्याश्च भीरवः शोभयन्त्यश्च कामस्य गणा प्रोक्ताश्च दुर्दश इत्येते बहुसाहस्रा भास्वरा अप्सरो गणाः देवतानां ऋषीणाञ्च पत्न्यश्च मातरश्च सुगन्धाश्चाधनिष्पन्दा सर्वाश्चाप्सरसः समाः सम्प्रयोगस्तु कामेन माद्यन्दिवि हरं विना तासां देवर्षि संस्पर्शा जातासाधारणायतः पर्वतस्तत्र सम्भूदो नारदश्चैव ताबुभौ ततो यवीयसी चैव तृतीया रुन्धति स्मृदा देवर्षिभ्यस्तयोर्जन्म यस्मान्नारदपर्वतौ तस्मात्तौ सनामानौ स्मृतौ नारदपर्वतौ विनतायाश्च पुत्रौ द्वौ अरुणौ गरुडश्च गायत्र्यादीनि क्षन्तांसि सौ पर्णेयानि पक्षिणाः व्यवहार्याणि सर्वाणि ऋजुसन्निहितानि च क्रद्रुर्नागसहस्रं वै विजज्ञे धरणिधरम् अनेकशिरसां तेषां केदराणां महात्मनाम् बहुत्वान्नामधेयानां प्रधानांश्च निबोधत तेषां प्रधानागानां शेषवासुकितक्षकाः अकर्णो हस्तिकर्णश्च पिजरश्चार्यकस्तथा ऐरावधो महापद्मकम्बलाश्वतरावुभौ हेलापत्रश्च शङ्घश्च कर्केटकधनञ्जयौ महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ करवीरपुष्पदंष्ट्रसुमुखो दुर्मुखस्तथा सूनामुखो दिमुखकालीयश्चालिपिण्डकः कपिलश्चाम्बरीषश्च अक्रूरश्च कपित्थकः प्रह्लादस्तु ब्रह्मणश्च गन्धर्वोधमणिस्तकः नहुषकररोमाचमणिरित्येवमादयः काद्रवेयास्समाख्याधा कषायास्तु निबोधत कषाविजज्ञे द्वौ पुत्रौ विकृतौ परुषव्रतौ श्रेष्ठं पश्चिमसन्ध्यायां पूर्वस्यां च कनीयसं विलोकितैककर्णं च पूर्वं सा जनयत्सुदं चतुर्भुजं च दुष्पादं द्विधा गतिम् सर्वङ्गकेशं स्थूलाङ्गं शुभनाशं महोदरं स्वच्छ शीर्षं महाकर्णं मुञ्जकेशं महाबलं ह्रस्वास्यं दीर्घजिह्वं च बहुदंष्ट्रं महाहनुं रक्तपिङ्गाक्षपादञ्जस्थूलभ्रूदीर्घनासिकं गुह्यकम् क्षिदिकण्ठं च महापादं महामुखं एवंविधं कषापुत्रं जज्ञे सावधिभीषणं तस्यानुजं द्वितीयं साख्युषस्यन्ते व्यजायत त्रिशीर्षं च त्रिपादं च त्रिहस्तं कृष्णलोचनम् हरिच्छ्मश्रुं शिलासंहननं दृढं ह्रस्वकायं प्रबाहुं च महाकाय महारवं। महाकायमहारवम् दारितास्यं च बलवस्थूलनासिकं स्थूलौष्टमष्टदंष्ट्र च चा जिह्मास्यं शङ्घुकर्णकम् जडिलं पिङ्गलोद्वत्तनयनं जटिलं द्वन्द्वपिण्डकं महास्कन्दमहोरस्कं पृथुकोणं कृशोदरम् अस्थूलं लोहितं ग्रीवलम्बमेढ्राण्डपिण्डकम् एवंविधं कुमारं स समसूयता। सद्यप्रसूतमात्रौ तौ विवृद्धौ च प्रमादः उपयौगसमर्थाभ्यां शरीराभ्यां व्यवस्थितौ सद्योजादौ जादौ विवृद्धाङ्गौ मादरं पर्यकर्षतां तयोः पूर्वस्तु ह्यक्रूरो मातरं भ्रुवंश्च मादर्भक्षावक्षार्थं क्षुधयार्दितः न्यषेध यत्पुनर्ह्येनं स्वयं सदुः कनिष्ठकः पूर्वेशां क्षेमकृत्वं वै रक्षयिदां मादरं स्वकां बाहुभ्यां परिगृह्यैनं मादरं सोऽभ्यभाषयत यदस्मिन्नेव काले दुःप्रादुर्भूदस्तयोः पिता तौ दृष्ट्वा विकृता कारौ कशां तामभ्यभाषत तौ सुौ पितरं दृष्ट्वा ह्येकभूतौ मादुरेव माधुरेव पुनश्चाङ्गे प्रलीयेदां स्वमायया अथा ब्रवीदृशिर्भार्या किमाभ्या कि मुक्तवी सर्वक्षत तवैवाय माद्र मृतुल्य जनने पुत्रो भविका यहां तथा शीलो भवेशर्णा भवद भूमिस्तर्ण सलिल ध्रुवम मातॄणां शीलदोषेण तथारूपगुणैः पुनः विभिन्नास्तु प्रजाः सर्वास्तथाख्यादिवशेन च इत्येवमुक्त्वा भगवान् कशामप्रदिमस्तदा पुत्रा बाहूयसाम्ना वै नामनी पुत्राभ्यां यत्कृतं तस्यास्तदा चष्टखशा तदा माता यथा समाख्यादा धर्माभ्यां च पृथक् पृथक् तेन धात्वर्थयोगेन तत्तदर्थे चकारः मादर्भक्षेत्यधोक्तो वै खादने भक्षणे च सह भक्षा वेत्युक्तवान्ेष तस्माद्यक्षो भवत्वयं रक्ष इत्येष धाधुर्यफलेश विभाव्यते उक्तवांश्चैष यस्मात्तु रक्षे मादरं स्वकां नाम्ना रक्षो परस्तस्माद्भविष्यति तवात्मजः स तदा तद्विधां दृष्ट्वा विक्रिया च तयोः पिता तदा भाविनमर्थं च बुद्ध्वा मात्रा कृतं तयोः तावृभौ क्षुधितौ ता दृष्ट्वा विस्मितः परिमृष्टधीः तयोः प्रादिशदाहारं कषापदिरसृग्वसे पिता तौ क्षुद्धितौ दृष्ट्वा परमेधं तयोर्दौ युवयोर्हस्तसंस्पर्शाद्रक्तधाराश्च सर्वशः श्रृङ्मांसवसा भूदा भविष्यन्तीह कामतः नक्ताहारविहारौ च द्विजदेवादिभोजनौ नक्तं चैव बलीयां सौ दिवा वै निर्बलौ युवां मादरं रक्षद इमां धर्मश्चैवानुशिष्यते इत्युक्त्वा काश्यपः पुत्रौ तत्रैवान्तरधीयत गतेऽपि दरितौ क्रूरौ निसर्गादेवदारुणौ विपर्ययेषु वर्तेरे कृतज्ञौ प्राणिहिंसकौ महाबलौ महासत्तौ महाकायौ दुरासदौ मायाविधावधृश्यौ तावन्तर्धानगदावुभौ तौ ताव कामरूपिणौ घोरौ नीरुजौ च स्वभावतः रूपानुरूपैराचारै प्रजरन्तौ प्रबाधकौ सेवान् ऋषीन् पितृंश्चैव गन्धर्वान् किन्नरानपि पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् पक्षार्थमिह लिप्सन्तौ चैरतुस्तौ निशाचरौ इन्द्रस्यानुचरौ चैव क्षुब्धौ दृष्ट्वा ह्यधिष्ठतां राक्षसं तं कदाचिद्वै निशीधे ह्येकमीश्वरम् आहारं सपरीप्सन्वै शब्देनानुससारः आससादपिशाच्चौ वै त्वजः षण्ढश्च तावुभौ कविपुत्रौ महावीर्यौ कूष्माण्डौ पूर्वजाुभौ पिङ्गाक्षा ऊर्ध्वरोमाणौ वृत्ताक्षौ च सुदारुणौ कन्याभ्यां सहितौ तौदौ ताभ्यां भर्तुश्चिकीर्षया ते कन्ये कामरुपिण्यौ तदाचारमुभे च आहारार्थे समीहन्तौ सकन्यौ दु बुभुक्षितौ अपश्यतां रक्षः सन्तौ कामरूपिणमग्रदः सहसा सन्निपातेन दृष्ट्वा चैव परस्परं ईक्षमाणास्ति परस्पर जिघृक्षवः वितरावु जधुकन्ये युवामानयदध्रुदं जीवग्राहं निगृह्यैनं विस्फुरन्दं पदे पदे तदस्तमभिसृत्यैनं कन्ये जगृहतुस्तदा सङ्गृहीत्वा तु हस्ताभ्यामानि तः ताभ्यां कन्या गृहीतं तं पिशाच्च वीक्ष्य रक्षसम् अपृच्छताञ्जकस्य त्वं स च सर्वमभर्षत तस्य कर्माभिजाती च श्रुत्वा तौ रक्षसस्तदा अजशण्डश्च तस्मै ते कन्यके प्रत्यपादयद तौ तुष्टौ कर्मणा तस्य कन्ये ददतुस्तु वै पैशाचैनविवाहेन रुदन्त्या उद्ववाकसः अज षण्डसुधाभ्यां तदा श्रावयतां धनम् इयं ब्रह्मधनानाम नाम कन्याया सहिताशुभा ब्रह्म तस्यापराहार इति षण्डोभ्यभाषत इयं जन्दुधना नाम कन्या सर्वाङ्गजन्दिला जन्तुभावधनादाना इत्यजौश्रावयद्धनम् सर्वाङ्गकेशापाशा च कन्या जन्तुधना तुया यादुधानप्रसूता सा कन्या चैव महारवा अरुणा चाप्यलोमा च कन्या ब्रह्मधना तुया कन्या चैव महारवा एवं पिशा च कन्ये ते मिथुने प्रसूयताम् तयो प्रजानिसर्गं च कथयिष्ये निबोधत हेदिप्रहेदिरुग्रश्च पौरुषे यौवधस्तदा विद्युस्फूर्जश्च वादश्च आयोऽप्याक्रस्तथैव च सूर्यश्च राक्षसाह्ये रे यादुधानात्मजादश माल्यवांश्च सुमाली च प्रहेदितनयौ शृणु प्रहेदितनयश्रीमान्पुलोमा नाम विश्रुतः मधुपरो महोग्रस्तु लवणस्तस्य चात्मजः महायोगबलो महायोगबलोपेदो महादेवमुपस्थितः उग्रस्य पुत्रौ विक्रान्तो वज्रका नाम विश्रुतः पौरुषेयसुधाः पञ्च पुरुषादा महाबलाः कूरश्च विकृतश्चैव रुधिरातस्तथैव च मेधाशश्च वपाशश्च नामभिपरिकीर्तिताः वधपुत्रौ दुराचारौ विघ्नश्च चामनश्चः विद्युत्पुत्रो दुराचारो रसनो नाम राक्षसः स्फूर्जक्षेत्रे निकुम्भस्तु जादो वै ब्रह्मराक्षसः वादपुत्रो विरोधस्तु तथा यस्य जनातकः व्याक्रपुत्रो निरानन्धक्रतूनाम् सर्वस्य च अन्वये जादा पूरा सर्पाश्च राक्षसाः ब्रह्म परिक्रान्ता ब्रह्मधानान्निबोधद यज्ञापेदो धृतिः क्षेमो ब्रह्मपेदश्च यज्ञः स्वादोम्पुक के लि सर्प ब्रह्मत्मजानव स्वसारो ब्रह्मस्तेषा क्षेम सुदारुणा रक्तकर्णीम जिह्वा क्षमा चेषापारीणी यदा समन्वये जाता पृथिव्यां ब्रह्म राक्षसाः इत्येते राक्षसा क्रान्ता यक्षस्य विनिबोधत चकमे सरसं यक्षः पञ्चचूडां क्रतुस्थलां तल्लिप्सुश्चिन्तया न स देवोद्यानानि मार्गदे वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यद विशोगं सुमनं चैव नन्दनं च वनोत्तमं बहूनि रमणीयानि मार्गदेर्जादलालशः दृष्ट्वा दां नन्दने शोध अप्सरोभिस्सहासिनीं नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् दूषितस्वेन रूपेण कर्मणा चैव दूषितः ममोद्विजन्ति हिंस्रस्य तथाभूतानि सर्वशः तत्कथं नाम चार्वङ्गीं प्राप्नुयामहमङ्गनाम् दृष्ट्वा तदशोऽध शीघ्रकारी व्यवर्तयद् कृत्वा रूपं वसुरुचेर्गन्धर्वस्य च गुह्यकः तत सोऽप्सरसां मध्ये ताज चग्राहक्रतुस्थलां बुद्ध्वा वसुरुचितं सा भावेनैवाभ्यावर्तत शम्भोद सतया सार्धं दृश्यमानोऽप्सरो गणैः यक्षपुत्रार्थं सदया सह दृश्यमानोऽप्सरो चकारसः तदस् उछ्रया पिणाघेन सद्यो वृद्रश्रियाज्वल राजकमीर्तरम सोभ्यवाद भान रचतनाभेदी पिता तम प्रत्युवाच मात्रनुपो रूपे मितुर्वीण मा जादे जाते कुमारे दुस्वी प्रयपद्यत स्वरूपं प्रतिपद्यन्ते गूहन्धो यक्षराक्षसाः सुप्ता म्रियन्धक्रुद्धाश्च भीतास्ते हर्षितास्तथा ततोऽब्रवीत्सोप्सरसं स्मयमानस्तु गुह्यकः गृहं गच्छ भद्रं ते सपुत्रा वरानने इत्युक्त्वा सहसा तत्र दृष्ट्वा स्वं रूपमास्थितं विभ्रान्ता प्रधृता सर्वाः गच्छन्तीमन्वगच्छत्तां पुत्रस्तप्तां त्वयं शिरा गन्धर्वाप्सरसां मध्ये नयित्वा सन्यवर्तदा तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः यक्षाणां तु जनित्रीत्वम् इत्यूचुस्तां हृदुस्थलां जगाम सह पुत्रेण ततो यक्षस्वमालयम् न्यग्रोधो रोहिणो नाम्नाशेरते तत्र गुह्यकाः तस्मिन्निवासो यक्षाणां न्यग्रोधे रोहिणे स्मृतः यक्षो रचतनाभश्च गुह्यकानां पितामहः अनुह्रादस्य दैत्यस्य भद्रां मणिवरां सुताम् उभये मेन वद्याङ्गीं तस्यां मणिवरो वशी जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रमं तयोः पत्न्यौ भगिन्यौ चक्रदुस्तस्यात्मजे शुभे नाम्ना पुण्यजनी चैव तथा देवजनीचया विजज्ञे पुत्राण पुत्रान् पुण्यजनीशुभा सिद्धार्धं सूर्यतेजश्च सुमनं नन्दनं तथा मण्डूकं रुचकं चैव मणिमन्दं वस्तुं तथा सर्वानुभूतं शङ्कं च पिङ्गाक्षं भीरुमेव च असोमं दूरसोमं च पद्मं चन्द्रप्रभं तथा मेघवर्णं सुभद्रं च प्रद्योदं च महाद्युतिं द्युतिमन्दं गेदुमन्दं दर्शनीयं सुदर्शनम् चत्वारो विंशतिश्चैव पुत्राः पुण्यजनी भवाः जज्ञिरे मणिभद्रस्य सर्वे ते पुण्यलक्षणाः तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः विजज्ञे वै देवजनीपुत्रान् मणिवराञ्छुभा पूर्णभद्रं हैमवन्दं मणिमन्द्रविवर्धनौ कुसुं च रं पिशङ्कं महामुदं श्वेतं च विमलं चैव पुष्पदन्तं जयावकं पद्मवर्णं सुचन्द्रं च पक्षं च बलकं तथा कुमुदाक्षं सुकमलं वर्धमानं तथाहितम् आत्मनाभं सुगन्धं च सुवीरं विजयं कृतं पूर्णमासं हिरण्याक्षं सारणं चैव मानसं पुत्रां मणिवरस्यैदे यक्षा वैगुह्यका स्मृताः सुरूपाश्च सुवेशाश्च स्रग्विणःप्रियदर्शनाः तेषां पुत्राश्च पौत्राश्च शतशोधसहस्रशः खषायास्त्वपरे पुत्रा राक्षसा कामरूपिणः तेषां यथा प्रधानान्वै वर्ण्यमानान्निबोधत लालाभिप्रथनो भी भीमसुमाली मधुरेवच विस्फूर्जनो बृहज्जिह्वो मादङ्गो धूमृतस्तथा चन्द्रार्कभीकरो बुध्नकविलो पीडा पीडापरस्त्रिनाभश्च वक्राक्षश्च निशाचरः त्रिशिराशतदंष्ट्रश्च तुण्डकोशश्च राक्षसः अश्वाश्चा कम्पनश्चैव दुर्मुखश्च निशाचरः इत्येते राक्षसवारा विक्रान्तागणरूपिमः सर्वलोकचरास्तेदु त्रिदशानां समक्रमाः सप्तचान्या दुहितरस्ताशृणुध्वं यथाक्रमम् या सांच यजा सर्गो योत्ता गणा आलंब उत्कोत्कृष्टा निवृता कपिलाशिवा केसीम भगिश्त स्मृता होंगुर्मदा उदीर्ण राक्षसगण इमे चोत्पादिता शुभाः आलम्बेयो गणक्रूर औत्कचेयो गणस्तथा तद्धौत्काष्ठेयशैवेयौ रक्षसां स्युक्तमा गणाः तथैव नैरृदो नामत्र्यम्बकानुचरेणः उत्पाद प्रजा खर्गे गणेशरवरेण तो विक्रता शौर्यपन्नाराक्षसा ना युक्त नामनाख्यादो विक तेषां गणशतनीका उद्धतानां महात्मनां प्रायेण नु चरन्त्येते शङ्करं दैत्यराजेन कुम्भेन महाकाया महात्मना, महा महात्मना। उत्पादिता महावीर्या महाबलपराक्रमाः कापिलेया महावीर्या उदीर्णा दैत्यराक्षसा पिलेन कपिले नक्षे केशिन्यापरे जना उत्पादिता बलह उदीर्णा यक्ष केशिनी दुखिता चैव नीलाया राक्षसी आलम जनिता नैका सुरसी नैला नी समाख्यादा सामख्या खोर विक्रमा चरन्ति पृथिवीं कृष्णां तत्र देवलौकिकाः बहुत्वा चैव सर्गस्य तेषां वक्तुं न शक्यते तस्यास्त्वपि च नीलाया विकचा नामराक्षसी राक्षसी विकया महासत्त्वपराक्रमाः विरूपकेन तस्यां वै नैरृतेन इह प्रजाः उत्पादिताः सुखोराश्च शृणुतास्त्वनुपूर्वशः दंष्ट्राकरालाभिकृता महाकर्णामहोदराः हारकाभीषकाश्चैव तथैव क्लामकाः रेरवाकाः पिशाचाश्च वाककास्त्रासकाः परे भूमिराक्षसकाह्ये देमन्ताः परुपविक्रमाः चरन्ध्यदृष्टपूर्वास्तु नानाकाराह्यनेकशः उत्कृष्टबलसत्वा ये तेषां वैखे चरा लक्षमात्रेण चाकाशं स्वल्पात् स्वल्पं चरन्ति वै ये दैर्व्याप्तमिदं विश्वं शतशोधसहस्रशः भूमिराक्षसकैसर्वैरनेकैः क्षुद्र राक्षसैः नानाप्रकारैराक्रान्तानानादेशात्समन्ततः सामसाहीता ह्यौराक्षसम अष्ट विभागा हेशाख्या अवश्र निकिद्ञ निष्पत्ति काहस्रशतसख्या मतलोकचारिण पूतरा मातृसामान्यास्तथा भयंकराः बालानां मानुषे लोके ग्रहामरणकेदुकाः स्कन्दग्रहादयोः स्या आपकास्त्रासकादयः कौमारास्तेदुविज्ञेया बालानां गृहवृत्तयः कंदग्रह विशेषाण माइका तथ